गरुडपुराणम् आचारकाण्डम् अध्यायं 156 अण्ड् फिफ़्टि सिक्स् धन्वन्तरिरुवाच च व्याख्यास्यामि च शुश्रुत सर्वदा प्राणिनां मांस्ये कीलकाः प्रभवन् दिये अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधनादोषस्त्वङ्मांसमेधांसि सन्दोष्य विविधाकृतीन् मांसां कुरानपानादौ कुर्वन्त्याशांसि ताञ्जगुः सह जन्मान्तरोऽेन भेदोद्वेधा समासदः शुष्काग्र वेदाश्चस्ताश्रया अर्धपंचांगुस्तोक्यर्धांगुस्थितावाहिनी ता मध्ये विसर्जिनी बाह्या संवरणे गुदादौ बहिंगुे सार्धाङ्गुलप्रमाणेन रोमाण्यत्र ततः परम् तत्र हे दुःसहोद्धानाम् बाल्ये बीजोपतप्तता अर्षसाम् बीजसृष्टिस्तु माता पित्रपचारदः देवतानाम् प्रकोपे सान्निपादस्य चान्यतः असाध्या एवमाख्यादा सर्वे रोगाकुलोद्भवाः सहजानि विशेषेण रूक्ष दुर्दर्शनानि तु अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च योज्यानि च पृथोग्दोषसंसर्ग नि च यात्स्वतः शुष्काणि वादश्लश्मभ्या मार्द्राणि त्वस्य पित्तदः दोषप्रकोपहेधुस्तु प्रागुक्ते वस्त्रसादिनि अग्नौ मलेतिनिचिते पुनश्चायम् व्यवायद पानसंक्षोभविषमकठिनक्षुद्रकाशनाद बस्तिनेत्र गलौष्ठोद्धतलभेदादिकट्टनाद भृशीदाम्बुसंस्पर्शप्रदतादिप्रवाहणाद गदमूत्रशकृन्द्वेगधारणास्तदुदीरणाद जुगुप्सादि सारमेव ग्रहणी सोप्युपद्रवः, कर्षणाद्विषमादेश्च चेष्टाभ्यो योषिताम् पुनः आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनाद् ईदृश्यैश्चापरैर्वायुरपानः कुपिदो मले पयोर्वलिषु भास्वन्निः पूर्णमूर्तिषुर्शंसदिपूर्वं यन्देर् शांसिदु तत्पूर्वं लक्षणं वह्निमन्ददा विष्टम्भस्सास्तिसदनं पिण्डि कोद्वेष्टनं भ्रमः सान्द्रोद्धो नेत्रयो शोधशकृद्भवेदोधवाग्रहः मारुदः पुरदो मूढप्रायो नाभेरधश्चरन् सरकृदपरिकृन्दंश्च कृच्छ्रादा कुञ्जदिश्वसन् अन्ध्रकूजनमाडोपः क्षारितोद्गारभूरिदा प्रभुदमूत्रमल्पा विडश्रद्धा धूम्रकोष्टकः शिरःपृष्ठो रसाम् शूलमालस्यम् भिन्नवरुचःसम् इन्द्रियार्थेषु लैल्यं च क्रोधो दुःखोपचारदः आशङ्काग्रहणी शोधपाण्डुगुल्मोदरेषु च ये एतान्येव विवर्धन्ते जातेष्वहतनामसु निवर्धमानो मानोहितैरधो मार्गरोधदः क्षोभये दनिदान्यान् सर्वेन्द्रियः शरीरगान् तथा मूत्रचकृत्पित्तकथान्वायुश्च शोषयन् मुष्णात्यग्निं तद सर्वे भवन्ति प्रायशोर्षसः कृशोभृश्यंहदोत्साहो दीनः क्षामोदनिष्प्रभः असारि विगतच्छायो जन्तुदग्ध इव द्रुमः कृच्छ्रैरुग्रद्रवैर्ग्रस्तो यक्ष्मोक्तायैर्मपीडनैः तथा कास्यपिपा सास्य वैरस्य श्वास्य पीनसैः क्रमाङ्गभङ्गवमधुक्षवधुष्वयधुज्वरैः क्लैब्यबाधिर्यास्तैर्मित्यशर्करा परिपीडितः शामो भिन्नस्वरोऽध्यायन् मुहुषष्ठी मुहुष्ठी वन्नरोचकी सर्वपार् सर्वपर्वास्ति हृन्नाभि पायुवङ्क्षणशूलवान् गुदेर्णस्त्रवदाभित्तं बला कोदरसन्निभम् विशुष्कं चैव बक्वामं पक्वामं चान्दरान्दरं पाण्डुपित्तं हरिद्राक्दं पिच्छिलं चोपवेश्यते गुदाङ्गुरा बह्वनिलाशुष्काश्चिमा चिमान्विताः पीनाङ्गारुणास्तब्धा विषमाः परुषागराः मिथो विसदृशवक्रास्तीक्ष्णा विस्भुरिदाननाः शिम्बीकर्जुरकर्कन्धू कर्पासफलसन्निभाः केजित्कदम्बपुष्पाभा केजित्सिद्धार्थकोपमाः शिरपार्श्वांसजङ्घोरु वङ्क्षणाद्यधिगव्यथाः क्षोभूद्गार विष्टम्भहृद्गहरोचकप्रदाः का काश्वासाग्रिवैषम्य कर्णनादभ्रमावहाः तैरार्तोग्रथितं स्तोकं सशब्दं सप्रवाहिकम् ऋग्वेण पिच्छानुगदं विबद्धमुपवेश्यदे कृष्णत्वग् कृष्णत्वग्बद्धविन्मूत्रनेत्रवक्त्रश्च जायते गुल्मप्लीहोदराष्ठीरास्सम्भवस्तस्य चैव हि तन्वग्रस्ताविणो विश्रास्तनवो मृदवश्लथाः शुकजिह्वायकृत्कण्डजलौका वक्त्रसन्निभाः दाह शोकज्वरस्वेदर्चारु तृन्मूर्चारुचिमोहदाः सोष्माणो द्रव नीलोष्णपीतरक्दामवर्चसः यवमध्याहरित्पीतहारिद्रत्वं नखादयः श्लेक्ष्मोल्बणा महाबूलाखनामन्दरुजः सिताः उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः पिच्छलास्तिमिदाश्लश्ना कण्ड्वाढ्यास्पर्शनप्रियाः करीरपनः साध्याभास्तथा गोस्तनसन्निभाः वंशनाहिनः पियुबस्तिनाभिविकर्तनाः सकाशश्वासहृसप्रसेका रुचिपीनसः महकृत्र शिरोजाड्यशिशिरक्षारकारिणः क्लैब्याग्निमार्दवच्छर्द्याति सारादिविकारदाः वस्साभस कथप्राज्यपुरीशासृक्प्रवाहिकाः नस्त्रवन्दिनभिद्यन्ते पाण्डुस्निग्धत्वगादयः संसृष्टलिङ्गत्संसर्गनिय निचयात् सर्वलक्षणाः रक्तोल्बणागुदेकीडा पीडाकृतिसमन्विताः वडप्रसेखसदृशा गुञ्जा विद्रुमसन्निभाः तेत्यर्थं दुष्टमुष्णं जगाढविष्टम्भपीडिताः त्रवन्दिसहसारक्दं तस्य चाधिप्रवर्तितः के काभ्यः तक्षय दुःखैशोणितक्षयसम्भवैः हीनवर्णबलोत्साहो ही हदौ जा कलुषेन्द्रियः मुद्गकोद्रवजम्भीरकरीरचणकादिभिः रूक्षै सङ्ग्राहिभिर्वायुर्विक्स्थाने कुपिदो बली अधो वहानि श्रोदांसि संवृद्ध्याधः प्रशोषयन् पुरीषं वादविष्णुत्रसङ्गं गुर्वेदरुणं तेन तीव्रा रुजाकोष्ठ पृष्ठहृत्पार्श्वगाभवेद आत्मानमुदरे विष्टाहृल्लासपरिकर्दने बस्तौ च सुतरां शूलो गण्डश्वयुधसम्भवः पवनस्योर्ध्वगामित्वा तदश्चर्द्युजित्सु ज्वराः तदश्चर्द्यरुजिज्वराग हृद्रोग्रहणी दोषमूत्रसङ्गप्रवाहिकाः बाधिर्यादिशिरश्वासशिरोरुकाश्य पीनसाः मनोविकारतृश्वासपित्त गुल्मोदरादयः ये ते च वादचारोकाजायन्ते भृसदारुणः दुर्नामा मृत्युदावर्तपरमोऽयमुपद्रवः वादाभिभूतकोष्ठानां तैर्विनापि विजायते सहजानि दुदोषाणि यानि चाभ्यन्तरेवलौ स्थितानि तान्यसाध्यानि याप्यन्तेऽग्निबलादिभिः जानि द्वंदयां वराश्रिताध्या तान्यावत्सरा चाह्याोलणा चर्षासी सुखसाध्याचिरोत्त्त्त्त्त्त्त्त्त्पत्ति मेढ्रादिष्वपि वक्ष्यन्ते यद्धास्वं नाभिजानि तु गण्डोपदस्य रूपाणि पिच्छिलानि मृदूनि व्यानो गृहीत्वा श्लेष्माणं करोक्त्यर्शस्त्वचो बहिः किलोपमं स्थिरकरं चर्मकीलं च तद्विदुः वादेन तोदपाष्यं पित्ता दसितवक्त्रता श्लेक्ष्मणस्निग्धदा तस्य ग्रथितत्वं सवर्णताम् अर्षसाम् प्रशमे यत्नमाश्यु कुर्वीदबुद्धिमान् तान्यास्यु हि गदन्दाय्य कुर्युर्बद्धगुदोदरम् इति श्रीकारुडे महापुराणे आचार्यकाण्डेर्शोनिदानाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ओम् अध्यायम् 157 अण्ड् फिफ्टि सेवेन् धन्वन्तरिरुवाच अधिसारग्रहेण्योश्च निदानं वच्मि शुश्रुत दोषैर्व्यस्तैः समस्तैश्च भयाच्चोकाच्च षड्विधः अधिसारः स सुतराम् जायतेत्यम्बुपानदः विशुष्कान्नव सा स्नेह तिलपिष्टविरूटकैः मद्यरूक्षादिमात्रादिरसादिस्नेहविभ्रमाद कृमिकोशविरोधा तद्विधे तद्विद्धे कुपितानिलः विस्त्रं स यत्यधोवादम् हत्वा तेनैव चानलं व्यापार्यान्न सकृत्कोष्ठपुरीश्रद्रवतादयः प्रकल्पतेदीसारस्य लक्षणं तस्य भाविनः भेदो हृद्घृतकोष्ठेषु गात्र स्वेदो मलग्रहः आधनमविपाकश्च तत्र वादेन विज्वरम् अल्पाल्पम् शब्दशून्याढ्यं विरुद्धमुपवेश्यते रूक्षं सफेन मत्सम् च गृहीतम्ब मुहुर्मुहुः तथा दग्धगदाभासम् पिच्छिलम् परिकर्तयन् स शुष्कभ्रष्टपायुश्च हृष्टरोमो विनिश्वसन् पित्तेन पीदमशिदम् हरिद्रम् शाद्वलप्रभम् सरक्तमधिदुर्गन्धम् तृन्मूर्च्छा स्वेददाभवान् स शूल पायुसन्तापपाकवान्श्वेष्मणाकनं पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहितं सरोमर्पस्येक्लेशो गुरुभक्तिगुदोदरः कृतेऽप्यकृदसङ्गश्च सर्वात्मा सर्वलक्षणः भयेन क्षुपिदे चित्ते चायिदे द्रावयेश्चकृत वायुस्ततो निवार्ये दक्षिप्रमुष्णं द्रवं प्लवं वादापिते समं लिङ्गमाहुस्तद्वच्चशोगदः अनि सारसमसेन द्वेधा सामो निरामकः सासृग्जादं रसद्रोगो गौरवादप्सु मुञ्चति शकृदुर्गन्धमाडोपविष्टम् भार्तिप्रसेगिनः विपरीतो निरामस्तु कभात्कोपि न मज्जति अधिसारेषु यो नादियत्नवान् ग्रहणीगदः तस्य स्यादग्निर्वाणकार्यैरत्यर्थसञ्चितैः सामं शकृन्निरामं वा जीर्णं येनादिसार्यते सोदिसारोदिसरणा दाशुकारी स्वभावतः सामं शीर्णमजीर्णेन जीर्णे पक्वन्तु नैव चिरकृग्रहणीदोष सोपवेश अगस्म द्वार सुेधमकुहु सुर्धा पृथ्धोष सन्निपाचनम चिरा पवन अल्प प्रसेको वक्त्र वैरस्यमरुचिस्तृश्रमो भ्रमः आबद्धोदरदाचर्धिपर्णकेऽप्यनुगूजकम् सामान्यलक्षणम् कार्श्यं वमकस्तमको ज्वरः मूर्च्छाशिरोविष्टम् बश्व यधुः तन्त्रानिलतालुषोष्वस्तिमिरम् कर्णयोऽस्वनः पार्श्वोरु वङ्क्षणग्रीवारुजातीक्ष्णविसूचिका रुग्णेषु वृद्धि सर्वेषु क्षुत्रणा परिहर्तृका जीर्णे जीर्यति चाध्मानम् भुङ्क्ते स्वास्थ्यम् समश्नुदे दादृग्रोग गुल्मार्षप्लीतपाण्डुरसङ्गिदाः चिरा दुःखं द्रवं शुष्कं तुन्दारं शब्दफेन वद पुनः पुनः सृजद्वर्चं पीदेन पीदनीलाभं पीदा पीताभं सृजदि द्रवं हृत्कण्डदाहरुचितृडर्दितः श्वेष्मणा पच्यदे दुःखे मनश्चर्दिररोचकः अस्योपदाहनिष्टीव का सहृल्लास पीनसः हृदय मन्यदे स्थान गुरु उद्गारो दुष्टमधुरसदनम् सप्रभर्षणम् सम्भिन्नश्लेष्म संसृष्ट गुरुचाह्मलै प्रवर्तचम् अकृशस्यापि दौर्बल्यम् सर्वजे सर्वदर्शनम् विभागेन्द्रस्य यो प्रोक्ता पिपासाध्यास्त्रयो मलाः त्यस्य ग्रहणी दोषासमन्धेष्वस्ति कारणम् वादव्याध्यस्मरी कुष्टमेघोदरभगन्तरम् अर्षांसि ग्रहणीत्यष्टौ महारोगास् सुदुस्तराः इति श्रीकारुडे महापुराणे आचार्यकाण्डे दिसारनिदाननाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ओ अध्यायं हण्ड्रेड् अण्ड् फिफ्टि एय्ट् धन्योन्दरिरुवाच अथादो बस्ति बस्ति शिरो बस्तिभस्तिशिरो मेढ्रकडीवृषणपायुच एक संवहनाः प्रोक्ता गुतास्तिविवराश्रयाः अधोमुखोऽपि बस्तिर्हि मूत्रवाहि शिरामुखैः पार्श्वेभ्यः पूर्यदेश्लाक्ष्मैः स्यन्दमानैरनारदम् तैस्तैरेव प्रविश्यैवोषान् कुवन्दिंस्यतिम् मूत्राकादप्रमेहश्च कृच्छ्रान्म बस्ति वाष्णमेढ्रार्ति युक्तोऽल्पाल्पं मुहुर्मुहुः मूत्राण्या वा सपित्थम् सनिरुद्धं च सर्वैः सर्वात्मकम् मलैः यदा वायुर्मुखम् बस्तेर्व्यावर्त्य परिशोषयन् मूत्रम् स पित्तं कफधम् मूत्रम् सपित्थं सकथम् सकथं सशुक्रम् तदा क्रमाद सञ्जायदे कोरा पित्तम् गोरिवरोचना श्लेष्माश्रया च सर्वा स्या दधा स्यात् पूर्वलक्षणम् तदा सन्नदेशो हि परितो दिरुक् बस्तौ च मूत्रसङ्गित्वम् मूत्रकृच्छ्रम् ज्वरोरुचिः सामान्यलिङ्गं रुङ्नाभिसीवनी बस्तिमूर्धसु विस्तीर्ण वा सम्मूत्रं स्यात् तथा मार्गनिरोधनि बद्धं बद्ध्वा सुखं मेघेदच्छं गोमेधकोपमं तत्संक्षोभाद् भवेत् सासृं मांसमध्वनि ऋग्भवेद तत्र बाधाभिसृत्यार्थो दन्तान् खाददि वेपदे भिन्नादिमेहनं नाभिम् पीडयत्यधिलक्षणम् सानिलं मुञ्जदि शकृन् मुहुर्मे सदि बिन्दुषः श्यामरूक्षास्मरी चास्यस्यार्चिदाकण्डकैरिव पित्तेन दह्यदे बस्ति पच्यमान इवोष्णवान भल्यादकास्ति संस्थाना रक्तापी दासिदा स्मरा बस्तिर्निस्तु दद्य बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः अश्मरी महदी श्लक्ष्णा मधुवर्णाध वासिदा यदा भवति बालानां तेषामेव आशयोप भूयसा आशयोपचयाल्पत्वागणाहरणे सुखी शुक्रास्मरी तु महदी जायते शुक्रधारणाद स्थानच्युतमभुक्तं वा अण्डयोरन्तरे निलः शोषयत्युपसङ्गृह्य शुक्रम् तच्छुक्रमश्मरी बस्तिरुकृच्छ्रमुत्रत्वम् शुक्लाश्वयधुकारिणी तस्यामुत्पन्नमात्रायाम् शुष्कमेत्य विलीयते पीडिते ज्वरकास्येऽस्मिन्नश्मर्येव अस्सौ भिन्ना सात्वस्मिन्नमुलो मगे नरेदि सह मूत्रेण प्रतिलो मे विपच्यते मूत्रसन्धारणं कुर्यात् क्रुद्धो बस्तेर्मुखे मरुद मूत्रसङ्गं रुजं कण्डुं कदाचिच्च सुवामदः बस्ति मुद्रृत्य घर्माद स्थूल विप्लुता करो स्पंदनो स्पंदनोद्वेषना च बिंदुश प्रवर्तेम बस्पीडि धारावरोधाप्यश वादस्ति स्मृद दुस्तरो दुस्तरतरो द्वितीयप्रबलो निलः शकृष्मार्गस्य भस्तेश्च वायुरन्तरमाश्रितः अष्ठीलाभं घनं ग्रन्थिं करोत्य च बलमुन्नतं वादाष्ठीलेधिसात्मानं विष्णोत्रानिलसर्गकृत विघुणकुण्डलीभूतो वस्थौ तीव्रव्यधोनिलः आबध्यमूत्रं भ्रमदि संस्तम्भोद्वेष्ठगौरवं मूत्रमल्पाल्पमध वा विमुञ्चदि सकृत्सकृद वादकुण्डलिकेत्येव मूत्रं तु विधृते चिरं न निरेदि विधारणात्प्रतिशतं वादा वरुदिदं यदा नाभेरधस्तादुदरं मूत्रमापूरयेस्तदा कुर्यातीव्ररुगात्मानमशक्तिं मलसङ्ग्रहं तन्मूत्रं जाढरच्छिद्र वै गुण्येनानिलेनव आक्षिप्तमल्पमूत्रस्य वस्तौ नाभौ च वामले स्थित्वा प्रवेच्छनैः पश्चात्सरुजं वाधवारुजं मूत्रोत्सर्गं सविच्छिन्नं तच्छ्रेयो गुरुशेफसोः अन्तर्वसदिमुखे तृष्णा स्थिराल्पं सहसा भवेद् अस्मरी तुल्यरुघ्रन्धिर्मूत्रघ्रन्थिस्स उच्यते मूत्रितस्य स्त्रियं यादो वायुना शुक्रमुद्धृतं स्थानाच्युतं मूत्र यदप्रापश्चाद्वा प्रवर्तते भस्मोदकप्रदीकश शुक्रं तदुच्यते रुक्षदुर्बलयोर्वादेनोदावर्तं चकृद्यदा मूत्रस्रोतोऽनुपयेदि संसृष्टं सकृता तथा मूत्रबिन्दुं तुल्य गन्धं स्याद्विखादं तमादिशेद पित्तव्यायामतीक्ष्णम्लभोजनात्मानकादिभिः प्रवृद्धवायुना मूत्रेऽवस्थिस्थे चैव दाहकृद मूत्रं वर्धयते पूर्वं स रक्तं रक्तमेव वा, वा। उष्णं पुनः पुनः कृच्छ्रादुष्णवादं वदन्दितं रुक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुदौ मूत्रक्षयं सरुद्दासं जनयेदां तदाह्वयम् पित्तं कफोद्वादपि वा संहन्येदे निलेन चेद कृन्मूत्रं तदापिदं रक्तम् श्वेदं घनं सृजेद सदाहं रोजनाशङ्खचूर्णवर्णं भवेच्च तद शुष्कं समस्तवर्णं वा मूत्रसादं वदन्दिदम् इति विस्तारद विस्तारदप्रोक्तारोगामूत्रप्रवर्धिताः यदि श्रीगारूढे महापुराणे आचार्यकाण्डे मूत्राखादमूत्राकृच्छनिदाननामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ओम् अध्यायं हण्ड्रेड् अण्ड् 159 नैन् धन्वन्तरिरुवाच प्रमेहाणां निदानन्देवक्ष्येहं शृणुसुश्रुद प्रमेहा विंशतिस्तत्र श्लेष्मणो दशपित्तदः षट्चत्वारो निलपेज मेधोमत्र कथावहाह हारिद्रमेहि कटुकं हरिद्रा सन्निभं शकृत विस्त्रं माञ्जिष्ठमेहेजमञ्जिष्ठा सलिलोपमं विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहदः वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः मज्जाभं मज्जमिश्रं वा मज्जमेहि मुहुर्मुहुः हस्तिम जस्त्र मूत्रम वेग विवर्जित सदस्यं बिब्धम च हस्ति प्रमे मधुमेह मधुसमं जायतेस किलद्विधा किल धा क्रुधे धादुक्षया्वाय दोषा वृद आवृतो दोषलिङ्गानि सोनिमित्तं प्रदर्शयेद क्षणाक्षीणः क्षणात् पूर्णो भजदे कृच्छ्रसाख्यतां कालेनोपेक्षित सर्वो ह्यायादिमधुमेहतां मधुरं यच्च मेघेषु प्रायो मध्वीव मेहदी सर्वे ते तनोर्यदः अविपाको रुजिश्चर्दिर्निद्रा कार्षस्सपि न सः उपद्रवा प्रजायन्ते मेघानां कथ मेघानां कफजन्मनां बस्तिमेखनयोस्तो दो मुष्कावदरणं ज्वरः दासस्तृष्णा म्लिका मूर्च्छा विभेदपित्तजन्मनां वादजानामुदावर्तकम्बहृद्गहलोलताः शूलमुन्निद्रदाशोषश्वासका सञ्च जायते शराविका कच्छपिका ज्वालिनी विनता मसूरिका सर्षपिका पुत्रिणी सविदारिका विद्रधिष्ठेदि पीडिका प्रमेहोपेक्षया दश अन्नस्य कपः संश्लेषात् प्रायस्तत्र प्रवर्तनं स्वाद्वाम्लवर्णस्निग्धगुरुपिच्छिलशीस्तलम् नवम् धान्यम् सुरासूपमांसेक्षुगुडगोरस्सं यगस्थानासनवदिशयनम् विनिवर्दनम् बस्तिमाश्रित्य विनिवर्दनं बस्ति प्रमेशाद्दूषितः कफः दूषयित्वा बभुक्लदम् स्वेदमेदो वसामिषम् पित्तम् रक्तमधिक्षीणे कभादौ मूत्र संश्रयम् दातुं भस्तिमुपानीय तक्ष ये चैवमारुतः साध्या साध्यप्रतीत्याध्या मे कास्तेनैव तद्भवाः समे समकृदा दोषे परमत्वात् तथापि च सामान्यलक्षणन्तेषां प्रभूदा विलमूत्रता दोषा कृष्या विशेषेऽपि तत्संयोगविशेषतः मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते अच्छम्बहु सितं शीतं निर्गन्धमुदकोपमं मे सत्युदकमेहेन किञ्चिदाविलपिच्छिलम् चिक्षोरसमिवात्यर्थम् मधुरं चेक्षुमेघदः सान्द्री भवेत् पर्युषिदम् सान्द्रमेघेन मेघदी सुरामेही सुरातुल्यमुपर्यच्छ मथोघ्नम् स हृष्ठरोमो पिष्टेन पिष्टबद्बहुलं सिदं। शुक्राभं शुक्रमिश्रं वा शुक्रमेहि प्रमेहदी मूत्रयेत् शिकतमेहि सिकतारूपिणे मलान् शिदमेहि सुबहुशो मधुरं भृश शीतलं शनैः शनैः शनैर्मेहि मन्दं मन्दं प्रमो प्रमेहदी लाला तन्तुयुधं मूत्रं लाला मेघेन पिच्छिलम् गन्धवर्णरसस्पर्शेः क्षारेण क्षारतो यवद नीलमेघेन नीलाभं कालमेही मसी निभम् सन्धिमर्मसु जायन्ते मांसलेषु च धामसु अन्तोन्नदा मध्यनिन्मा अक्लेदसुरजान्विदा शरावमानसंस्थाना पीडिका स्याच्चराविका सदाः कूर्म संस्थाना ज्ञेया कक्षपिका बुधैः महदीपीडिका नीलाविनदा नाम सा स्मृता दहदि त्वचमुद्धाने ज्वालिनी कष्ट स्फोटचिता दारुणा त्वलजीभवेद मसूराकृति संस्थाना विज्ञेया दुमसूरिका सर्षपोपम संस्थाना जिह्वापाकमहारुजा पुत्रिणी महदि चाल्पा सुसूक्ष्मा पीडिका विदारिकन्दवद्वृत्ता कठिना च विदारिका विद्रधिर्लक्षणायैर्युक्ता ज्ञेया विद्रधिका तु सा पुत्रिणी च विदारी च दुःसभा बहुमेधसः सद्यपितोल्बणास्त्वन्या स पीडिकास्ता भवेयुः स्याद्दोषाद्रेको यथा यथम् प्रमेहेण विनाप्येदा जायन्ते दुष्टमेदसः तावच्च नोपलक्ष्यन्ते यावद्वर्णम् च वर्जितम् आरिद्रम् रक्तवर्णम् वा मेघप्राग्रूपवर्जितम् यो मूत्रयेदत्तन्महेम् रक्त पित्तु तद्विदुः सोऽद्वोङ्गबान्धशिथिलत्वमङ्गे शय्या शनस्वप्नसुखाभिषङ्गः हृन्नेत्रजिह्वा श्रवणोपदाहा खनोग्रदाकेश नखाभिवृद्धिः शीतप्रियत्वम् वदतालुशोषो माधुर्यमास्ये करपाददाहः भविष्यदो मेघगणस्य रूपं मूत्रेऽपि धावन्ति पिपीलिकाश्च कृष्णा प्रमेहे मधुरं प्रपिच्छं मध्वा मये स्याद्विधो विकारः सम्पूरणद्वा दोषेष्वनिलात्मको वा सम्पूर्णरूपा कफपित्तमेघाक्रमेण ये वैरधिसम्भवाश्च सक्रामदे पित्तकृतास्तु याप्यासाध्योऽस्ति मेघो दिष्ठम् यदि श्रीगारुडे महापुराणे आचारकाण्डे प्रमेहनिदान ैको न षष्ट्युत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् सिक्स्टि धन्वन्तरिरुवाच निधानम् विद्रधेर्वक्ष्ये गुल्मस्य शृणु शुश्रुत भूकृदायि पर्युषिदात्युष्ण शुष्क रुक्षविदाहिभिः धन्वन्तरिरुवाच निधानं विद्रधेर्वक्ष्ये गुल्मस्य शृणुशुश्रुत भो कृ पर्युषिदात्युष्ण शुष्करू शुष्करुक्षविदाहिभिः जिग्मशय्या विचेष्टाभिस्तैस्तैश्चाश्रित्प्रदूषणैः दुष्टसत्त्वङ्मां समेदोऽस्ति मदा मृष्ठो दराश्रयः यशोधो बहिरन्तश्च महाशूलो महारुचः वृत्तस्यादा यतो यो वास्मृदो स्मृतो दोषै पृथक् समुदितै शोणितेनत्र तेन च क्वकदे तत्र तत्राङ्गे दारुणे ग्रदिदोस्तृतः अन्तरा दारुणश्चैव गम्भीरो गुल्मवर्धनः वल्मीक वत्स मुत्स्रावी ह्यग्निमान्द्यं च जायते कृत्प्लीह क्लोमकृत्कुक्षिवङ्क्षणिः हृदये वेपमानेदु तत्र तत्रादितीव्ररुक श्यामारुण शिरोदानपाघो विषमसंस्थितिः सञ्ज्ञा चेदभ्रमाणा हस्यन्त सर्पणशब्दवान् रक्तताम्रासिदः पित्तातृन्मोहज्वर भाघवान् क्षिप्तोद्धानप्रपाकश्च पाण्डुः कण्डूयुधः कपाद संक्लेशीदकस्तम्भजृम्भारोचकगौरवाः चिरोद्धानो विपाकश्च सङ्गीर्णः सन्निपातजः सामध्याच्छात्र विद्भेदो बाह्याभ्यन्तरलक्षणं कृष्णस्फोडावृतश्यामस्त्री व्रदा, व्रदा हरुजाज्वरः पित्तलिङ्गो सृजा बाह्ये स्त्रीणामेव तथान्तरं शस्त्राद्यैरभि पादोद्धरकृतैश्च रोगकारणम् क्षतो वायुना क्षिप्तसरकृदपित्तमीरयन् पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवं तेनोपद्रवभेदश्च स्मृदोऽधिष्ठानभेदः नाभौहि मादं चेद्बस्तौ मूत्रकृत्रञ्जजायते श्वासप्रश्वासरोधश्च प्लीहाया मदि त्रिक्परं गलरोधश्च क्लों निः स्यात् सर्वाङ्गप्ररुजाकृदि प्रमोकस्तमकक्कासौ हृदयोद्धट्टनसन्तदा कुक्षिपार्श्वान्तरे चैव कुक्षौ दोषोपजन्म तथा चेदुरुसन्धौ च वंक्षणे कडिपृष्ठयोः पार्श्वयोश्च व्यथापायौ पवनस्य निरोधनम् आमपक्वविदग्ध्वं विदग्धत्वं तेषां शोधवदादिशेद दा नाभेरूर्ध्वमुखात् पक्वात् प्रद्रवन्द्यपरे गुदाद गुदास्तनि गुदास्तनाभिजे विद्या दोश्चक्लेदोश्च विद्रद्धौ कुरुदे स्वाधिष्ठानस्य विवर्धम् सन्निपादजः पक्वो हि नाभिवस्तिस्रो भिन्नोऽन्तर्भि हिरेव वा पाकश्चान्धप्रवृद्धस्य क्षीणस्योपद्रवार्दिदः विद्रुधिश्च भवेत्तत्र पापानां पापयोषितां मृदे तु गर्भगे चैव सम्भवेच्छ्वय स्वयदर्कणः स्तने समर्थे दुःखं वा बाह्य विद्रधिलक्षणम् नारीणां सूक्ष्मरक्तत्वात् कन्यायान्तु न जायते क्रुद्धो रुद्धगतिर्वायुशेभमूलकरोहि सः मुष्कवङ्क्षणदः प्राप्य फलकोषादिवाहिनीम् आपीड्यतमनीं वृद्धिं करोति फलकोषयोः दोषो मेधःसु तत्रास्तु गतः मूत्रयोरप्यनिलाद् बाह्ये वाभ्यन्तरे तथा वादपूर्णकरस्पर्शो रूक्षो वादाच्च दाहकृद पक्वो दुम्बरसङ्काशपित्ता दाहोष्मपाघवान् कभा कठिनोऽल्परुक् कृष्णस्फोडावृधपिण्डों वृद्धिलिङ्गश्च रक्तदः कफ वन्मेदसंवृद्धिर्मृदु तालवलोपमः मूत्रधारिणशीलस्य मूत्रजस्तत्र गच्छतः अलोभपूर्णधृतिमान् क्षोभं यादिसरन्मृदु मूत्र च वलयफलकोशयोः वादको बिभि सहारैः शीदतो यावगासनैः विण्मूत्रधारणा चैव विषमाङ्गविचेष्टनैः क्षोभितैः क्षोभितौजाश्च क्षीणान्धर्देहिनो यदा पवनो विगुणीभूय शोणिदं तदधो नयेद् कुर्यात्तत्क्षणसन्धिस्थो ग्रस्ताभ्यश्वयुधस्तदा उपेक्ष्यमाणस्य च गुल्मवृद्धिमाध्मानरुग्वैविधाश्च रोगाः सुपूडितोऽन्धस्वनवान् प्रयाधि प्रध्मापयन्नेधि पुनश्च मूर्ध्नि प्रकृतवृद्धिरसाध्येयं वादवृद्धि समाकृतिः रूक्षकृष्णारुणशिरा पूर्णावृदगवाक्षवाद वादोष्टधा पृथदौषः संस्पृष्टैर्निचयं गदः आर्तवस्य च दोषेण नारीणां जायतेष्टमः ज्वरमूर्च्छादिसारैश्च वामनाद्यैश्च कर्मभिः कर्षितो बलवन्यादि शीतार्थश्च बुभुक्षितः यः पिबत्यन्नपानानि लङ्कनप्लावनादिकं सेवदेहीन संज्ञाभिरर्दिदसमुदीरयन् स्नेहस्वेदवनभ्यस्य शोषणं वा निःशेवयेद शुद्धो वा शुद्धिहानिर्वा भजेद स्पन्दनानि वा दोल्बणस्तस्य मलाकृतच्चैव हितेथ वा िणः ऊर्ध्वाधो मार्गमावृत्य वायुशूलं करोति वै स्पर्शोपलभ्यं गुल्मोद्धमुष्णं ग्रन्थिस्वरूपिणम् कर्षणात् कफविट्कादैर्मार्गस्यावरणेन वायुकृताश्रयकोष्ठे रौक्ष्यात् काठिन्यमागतः स्वतन्त्रस्वाश्रये दुष्टपरतन्त्रपराश्रये तद पिण्डकवत्स मलसंसृष्ट एव च गुल्म इत्युच्य देवस्तिनाभिहृत्पार्श्वसंश्रयः वादजन्ये शिरशूलज्वरप्लीकान्द्रकूजनं वेदसूच्येव वा, विभ्रंश्यकृच्छ्रे मूत्रं प्रवर्तते गात्रे मुखे पदे शोदह्यग्निमान्द्यं तथैव च रूक्षकृष्णत्वगादित्वं चलत्वा धनिलस्य व्याप्त इव पित्ताम्लतौ मूर्च्छा विभेदस्वेदत्रिज्वराः हारिद्रयं सर्वपात्रेषु गुल्मा चोद्धस्य दर्शनं हीयदे दीप्यदे सुष्मा स्वस्थानं दहदीव च तै नित्यमरुजिसदनं शिरसिज्वरः पीनः सालस्य कृल्लसौ शुक्लकृष्णत्वगादिदा गुल्मोगभीरकठिनो गुरुर्गर्भस्थबालवद स्वस्थानस्ता अधा वन्दस्तदयेवात्रमारकाः प्रायस्तु यत्तद्वन्द्वोद्धा गुल्मा संसृष्टमैधुनाः सर्वजस्तिव्र ऋग्गुदा सशीकृपाकी कनोन्नतः सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायते रुदव्याचैव चैव शूलार्ता यदि वा योनि रोगिणी ेवदेवानिलांश्च स्त्री क्रुद्धस्तस्याः समीरणः निरुद्ध्यार्थवं योन्यां प्रतिमासं व्यवस्थितं सूक्ष्मौ करोति तद्गर्भे लिङ्गमाविष्करोति च प्रल्लासदौ हृदस्तन्यदर्शनं कामचारिता क्रमेण वायोः संसर्गात्पित्तं योनिषु सञ्चयं रक्तस्य गुल्मजान गर्भाश्रये सुदराम् शूलाम् शूलांश्चैव सृगाश्रये योनिस्त्रावश्च दौर्गंध्यं भूयस्यन्तनवेदने पदापि गर्भवद्गुल्मः सर्वे ते दिसम्भवाः पाकञ्चिरेण भजते नैधदे विद्रधिः पुनः पच्यदेशीक्रमत्यर्थम् दुष्टरक्ताश्रयस्तु सः अत शीघ्रं विदाहित्वाद्वद्रधिः सोऽभिधीयते गुल्मान्तराश्रये गुल्मान्तारश्रये बस्तिदाखश्च प्लीहवेदना अग्निवर्णबलभ्रंशो वेगानां वा प्रवर्धनम् अधो विपर्यये बाह्य कोष्ठाङ्गेषु च नादिरुक वैवर्ण्यमधवा कासो बहिरुन्नतताधिकम् सा डोपमद्युग्ररुजमाध्मानमुदरे भृश्यम् ऊर्ध्वाधो वादरोधेन स्तमानाहम् प्रचक्षते धनश्चाष्ट्युपमो ग्रन्थिलोष्ठीलादुसमुन्नता समस्ता लिङ्गसंयुक्तप्रत्यष्ठीला तदा कृतिः पक्वशयोद्भवोऽप्येवं वायुस्त्रीर्व्ररुजाश्रयाद उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वाकोजनानि आचोपमाध्मानमपङ्क्रिख्रिपङ्घ्रिः आलस्य गुल्मस्य भवे च चिह्नं यदि श्रीकारूडे महापुराणे आचारकाण्डे विद्रधिगुल्मनिदाननामषष्ट्युत्तरशततमोऽध्यायः ओम्